अथ षोडशाधिकशततमः प्रतियाते तु भरते वसन् रामस्तदावने लक्षयामाससोद्वेगमथौत्सुक्यम् तपस्विनाम् ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् नयनैर्भृकुटीभिश्च रामम् निर्दिश्य शङ्किताः अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः कृताञ्जलिरुवाचेदमुषङ्कुलपतिम् ततः न कश्चिद्भगवन्किञ्चित् पूर्ववृत्तमिदम् विक्रियन्ते तपस्विनः प्रमादाच्चरितम् लक्ष्मणस्य ऋषिभिर्दृष्टम् नानुरूपम् महात्मनः कच्चिच्छुश्रूषमाणावशुश्रूषणपरामयी प्रमदाभ्युचिताम् वृत्तिम् सीतायुक्तान्न वर्तते अथर्षिर्जरया वृद्धस्तपसा च जराम् कल्यान सदा चलनम् तात वैदेह्यास्तपस्विषु ता विशेषतः ता त्वन्निमित्तमिदम् तावत्तापसान् प्रतिवर्तते रक्षोऽभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः रावणावरजः कश्चित् खरो हराक्षसः उत्पाट्य तापसान् सर्वाञ्जनस्थाननिवासिनः धृष्टश्च जितकाशी च अवलिप्तश्च पापश्च त्वाम् च तात न मृष्यते स्वम् यदा प्रभृति यस्मिन्नाश्रमे तात वर्तसे तदा प्रभृतिरक्षांसि विप्रकुर्वन्ति तापसान् दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि नानारूपैर्विरूपैश्च रूपैरसुखदर्शनैः अप्रशस्तैरशुचिभिः सम्प्रयुज्य च तापसान् प्रतिघ्नन्त्यपरान् क्षिप्रमनार्याः पुरतः स्थितान् तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः अवक्षिपन्ति गमनायान्यदेशस्य चोदयन्त्यषयोद्यमाम् तत्पुरारामशारीरीमुपहिंसाम् तपस्विषु दर्शयन्ति हि दुष्टास्तेत्यक्ष्याम इममाश्रमम् बहुमूलफलम् चित्रमविदूरादितो वनम् अश्वस्याश्रममेवाहम् श्रयिष्ये सगणः पुनः सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते सकलत्रस्य सन्देहो नित्यम् युक्तस्य राघव समर्थस्यापि हि सतो वासो दुःखमिहाद्यते इत्युक्तवन्तम् रामस्तं राजपुत्रस्तपस्विनम् न शशाकोत्तरैर्वाक्यैरवबद्धुम् समुत्सुकम् अभिनन्द्य च राघवम् स जगामाश्रमम् त्यक्त्वा कुलैः कुलपतिः सह रामः संसाध्य ऋषिगणमनुगमनात् देशात् तस्मात् कुलपतिमभिवाद्य ऋषिम् सम्यक् उपदिष्टार्थः पुण्यम् वासाय स्वनिलयमुपसम्पेदे आश्रम ऋषिविरहितम् प्रभो क्षणमपि न जहौ राघवम् हि सततमनुगतास्तापसाश्चार्ष चरिते धृतगुणाः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अयोध्याकाण्डे षोडशाधिकशततमः